छान्दोग्योपनिषत् अध्यायं 3 खण्डं 1 ओम असौ वा आदित्यो देवमधुतस्य द्यौरेवतिरस्थीनवगुंशोऽन्तरिक्षमपूपो मरीचयः तस्य ये प्राञ्चो रश्मयस्ता एवास्य प्राच्यो मधुनाढ्यः ऋच एव मधुकृद ऋग्वेद एव पुष्पन्ता अमृता आपस्ता वा mm. येता ऋचः येदमृग्वेदमभ्यदपगंस्तस्याभिस्तप्तस्य यशस्ते ये ज इन्द्रियं वीर्यमन्नाद्यगुं रसोऽजायत तद्व्यक्षरत्तदादित्यमभिधोश्रयत्तद्वायेदद्यदेददादित्यस्य रोहितगुं रूपम् अध्यायं त्रि खण्डं टु अध यस्य दक्षिणा रश्मयस्ता एवास्य दक्षिणा मधुनाढ्यो यजोगुंश्येव मधुकृदो यजुर्वेदयेव पुष्पन्ता अमृता आपः तानि वा यजो ता यजो वेदानि यजोगुंस्येतयजुर्वेदमभ्यतपगुंस्तस्याभिः तप्तस्य यस्य स्ते रसो जायत तद्व्यक्षरस्तदादित्यमभिदोश्रयत्तद्वा ये दध्यते ददादित्यस्य शुक्लघुं रूपम् अध्यायं त्रि खण्डं त्रि अध येस्य प्रत्यञ्चो रश्मयस्ता येवास्य प्रतीच्यो मधुनाढ्यः सामान्येव मधुक्रुद्धः सामवेद एव पुष्पन्ता अमृता आपः तानि वा येदानि सामान्येतगुं यशस्तेज इन्द्रियं वीर्यमन्नाद्यगुं रसोऽजायद तद्व्यक्षरतदादित्यमभिदोश्रयत्तद्वा ये दध्यदे ददादित्यस्य कृष्णगुं रूपम् अध्यायं त्रि खण्डं फोर् अधयेस्योदंशो रश्मयस्ता ये वा स्योदीत्यो मधुनाढ्यो धर्वाङ्गिरस एव मधुहृदयिदिहासपुराणं पुष्पन्ता अमृता आपहा देवा ये दे धर्वाङ्गिरसये यश्चस्ते जिन्द्रियं वीर्यमन्नाद्यगुं रसोऽजायत तद्व्यक्षरत्तदादित्यमभिदोश्र यत्तद्वायेदे ददादित्यस्य परं कृष्णगुं रूपम् अध्यायं त्रि खण्डं अध ये स्योर्ध्वा रश्मयस्ता ये वा स्योर्ध्वा मधुनाड्यो गुह्या ये वादेशा मधुकृदो ब्रह्मैव पुष्पन्ता अमृता आपः देवा ये दे गुह्या आदेशा ये दद्ब्रह्माभ्यतवगुंस्तस्यापि तप्तस्य यस्य स्तेज इन्द्रियं वीर्यमन्नाद्यगुं प्रसोजायद ते वा येदे रसानागुम्रसा वेदाहि रसास्तेषा मेदे रसास्तानि वा येदान्यमृदा नाम मृदानि वेदाह्यमृतास्तेषा मेधान्यमृदानि अध्यायं त्रि खण्डं सिक्स् तद्यत् प्रथममृदन् तद्वसव उपजीवन्त्यग्निना मुखे न न वै देव अश्नन्दिनपि बन्ध्ये ददेव मृदन् दृष्ट्वा तृप्यन्ति स एतदेव रूपमभि संविशन्त्ये तस्माद्रूपाद्युध्यन्ति स येतदेवमृतं वेदवसुनामेव गो भूत्वाग्निनैव मुखेनै ददेवमृदं पत्यगों स्वाराज्यं पर्येता अध्यायं त्रि खंडं सवन् अद यद्वितीयमृदन् तद्द्रा उपजीवन्तीन्द्रेण मुखेन न वैदेवा अश्नन्दिन पिबन्त्येददेवा मृदन् दृष्ट्वा तृप्यन्ती तयेददेवरूपमभि संविशन्ध्ये तस्माद्रूपाद्युद्यन्ति स येदेवमृतं वेदरुद्राणामे वैको भूत्वेन्द्रेणैव मुखेनै ददेवमृदं दृष्ट्वा तृप्य दिशयेदेवरूपमभि संविशत्ये तस्माद्रूपादुदेति स यावदादित्यः पुरस्तादुदेदा पश्चादस्तमेदाद्विस्तावद् दक्षिणद उदेतोत्तरतोस्तमेधा रुद्राणामेव तावदाधिपत्यगुं स्वाराज्यं पर्येता अध्यायं त्रि खण्डम् एय् अध यत् तृतीयममृदन् तदादित्या उपजीवन्ति वरुणेन मुखेन नवै देवा अश्नन्ति न ददेवा मृदन् दृष्ट्वा तृप्यन्ति स तस्माद्रूवा संविशन्त्येतस्माद्रूपादुध्यन्ति स येतदेवमृतं वेदादित्यनामे वै गो भूत्वा दृष्ट्वा तृप्यति येतदेवरूपमभि संविशत्येत्तस्माद्ध्रूपादुदेति स यावदादित्यो दक्षिणदुदेतोत्तरधोस्तमेदाद्विस्तावत्पश्चादुदेधा पर्येता अध्यायं त्रि खण्डं नयन् अधयश्चतुर्थमृतं तन्मरुद उपजीवन्ति सोमेन मुखेन न वैदेव अश्नन्दिनपिबन्त्ये तदेवामृदं दृष्ट्वा तृप्यन्ती तयेददेवरूपमभि संविशन्त्ये तस्माद्ध्रूवाद्युध्यन्ति स ये तदेवममृतं वेदमरुदा मे वै भूत्वा सोमेनैव मुखेनै ददेव मृदन् दृष्ट्वा तृप्यतिशयेदेव रूपमभि संविशद्ये दुदेदा पुरस्ता दस्तमेदा पश्चादुदेदा पुरस्तादस्तमेदाद्विस्तावदुत्तरद उदेदा दक्षिणतोस्तमेधा मरुदा मे वदा वदाधिपत्यगुं स्वाराज्यं पर्येदा अध्यायं त्रि घण्डं टेन् अध यत्पञ्चममृतं तत्साध्या उपजीवन्धिब्रह्मणा मुखेन न वैदेवा अश्नन्तिनपि बन्ध्ये ददेव मृदं दृष्ट्वा तृप्यन्ती स एतदेवरूपमभि संविशन्त्येतस्माद्ध्रूपादुद्यी स य एतदेव मम मम मम मम मम मम वेदसाध्यानामेवैको भूत्वा ब्रह्मणैव मुखे नैतदेवमृदं दृष्ट्वा तृप्यति स एतदेवरूपमभि संविशत्येतस्माद्ध्रूपादुदेति स यावदादित्य उत्तरद उदेता पर्येता अध्यायं त्रि खण्डम् इलवन् अध तद ऊर्ध्व उदेत्य नैवो देदा नाष्टमेधैकल एव मध्येस्तादा तदेश श्लोकः नवै वै तत्र न निम्लो जहनोधियाय कदाचन देवास्तेनाहगुंसत्येन मा विराधिषि ब्रह्मणेधि न वा अस्मा उदे न निम्लोचति सहृदि वा ब्रह्मोपनिषदं वेद तद्धैस्तद्ब्रह्मा प्रजापतय उवाच प्रजापतिर्मनवे मनुःप्रजाभ्यस्तद्धैद दुधालकाय रुनयेज्येष्ठाय पुत्राय पिता ब्रह्मप्रोवाच इदं वावतज्येष्ठाय पुत्राय पिता ब्रह्म प्रभ्रूयात्प्रणायाय वादेह्वासिने नान्यस्मै कस्मै न यद्यप्यस्मा इमामद्भिः परिगृहीतान् धनस्य पूर्णान् दद्यादे ददेवततो भूय इत्येदेवततो इति इत्ये इत्ये अध्यायं त्रि घण्टं ट्वेल्व् गायत्री वा युदगुं सर्वं भोधैयदि दङ्गिं च वाघ्वै गायत्री वाग्वा यदगुं सर्वं भोदं गायति चत्रायते च या वैसा गायत्रीयं वावसायेयम् पृथिव्यस्यादुं ही दगुं सर्वं भूतं प्रधिष्ठितमेदामेव नादिशीयते या वैसा सा पृथिवीयं वावसा यदिदमस्मिन्पुरुषे शरीरमस्मिन् हीमे प्राणा प्रधिष्ठिता एतदेव नादिशीयन्ते दे। यद्वैतत्पुरुषे शरीरमिदं वाव तद्यदिदमस्मिन्नन्धःपुरुषे हृदयमस्मिन् हि मे प्राणाः प्रदिष्ठिता यदेवनादिशीयन्ते सैषा चतुष्पदा तावानस्य महिमा तदो ज्यायागुंश्च पुरुषः पादोऽस्य सर्वाभूदानित्रिपादस्यामृदन्ति दिवीति यद्वै तद्ब्रह्मेतीदं वावतद्योयं बहिर्धा पुरुषादाकाशो यो वै स बहिर्धा पुरुषादाकाशः अयं वावस यो यमन्तःपुरुष आकाशो यो वै सोऽन्धःपुरुष आकाशः अयं वावसयोयमन्तर्हृदय आकाशस्तदेतत् पूर्णमप्रवर्तिपूर्णामप्रवर्तिनीगुं श्रियल्लभते य एवं वेद अध्यायं 3, खण्डं 13. तस्य हवा एदस्य हृदयस्य पञ्चदेव सुषयसयोस्य प्राङ् सुषिः स प्राणस्तच्छुषु स आदित्यस्तदे दत्तेजोन्नाद्यमित्युपासीद तेजस्व्यन्नादो भवति य अध यस्य दक्षिणः सुषि सौव्यानस्तच्छ्रोत्रगुंस अध योऽस्य प्रत्यङ्क्सुषि सोपानसवाक्सोऽग्निस्तदेतद्ब्रह्मवर्चसमन्नाद्य मित्युपासीद ब्रह्मवर्चस्यन्नादो तदेतकीर्तिश्च व्युष्टिश्चेत्युपासीद कीर्तिमान् व्युष्टिमान् भवदीय एवं वेद अधयोस्योर्ध्वसुषिः स उदानः स वायुः स आकाशस्तदे ददौजश्च महश्चेत्युपासीदौजस्वी महस्वान्भवदीय एवं वेद ते वा पञ्चब्रह्मपुरुषा स्वर्गस्य लोकस्य द्वारपासय एतानेवं पञ्चब्रह्मपुरुषान् स्वर्गस्य लोकस्य द्वारपान् वेदास्य कुले वीरो जायते प्रतिपद्यते स्वर्गल्लोकय्य एतानेवं पञ्चब्रह्मपुरुषान् स्वर्गस्य लोकस्य द्वापरान्वेद अध यदतः परो दिवो ज्योदिर्दीप्यते विश्वतः पृष्ठेषु सर्वतः पृष्टेष्वनुत्तमेषूत्तमेषु लोकेष्विदं वावतद्यदिदमस्मिन्नन्धःपुरुषे ज्योतिः तस्यैषा दृष्टिर्यत्रैदस्मिंश्चरीरे सघं त्रैदत्कर्णावपि गृह्यनिनदमिव नदधुरि वाग्नेरिवज्वलद उपशृणोति च श्रुतं चेत्युपासीद चक्षुष्यश्रुतो भवधिय एवं वेदय एवं वेद अध्यायं त्रिखण्डं फोर्टीन् सर्वं खल्विदं ब्रह्म तज्जलानिधिशान्त उपासिताथ खलु क्रदु मयः पुरुषो यथा क्रदुरस्मिल्लोके पुरुषो भवति तथेदः प्रीत्य भवति सक्रदुङ्कुर्वीद मनोमयः प्राणशरीरो भारूपसत्यसङ्कल्प आकाशात्मा सर्वकर्मा सर्वकामः सर्वगन्धस्सर्वरसः सर्वमिदमभ्यातो सर्व वाक्यनादरः येषत्मान्तर्हृदयेणी यान् व्रीहेर्वा यवाद्वा सर्षपाद्वा श्यामाकाद्वाश्यामाक तण्डुलाद्वा येषम आत्मान्तर्हृदये ज्यायान् पृथिव्या ज्यायानन्तरिक्षा ज्यायन् दिवो ज्यायानेभ्यो लोकेभ्यः सर्वकर्मा सर्वकामः सर्वगन्धस्सर्वरसस्सर्वमिदमभ्यातो वाक्यनादर एषम आत्मार्हृदय एतत् ब्रह्मैदमिदः प्रेत्याभिसम्भविदास्मीति यस्य स्यादधानविचिकित्सास्तीति हस्माण्डिल्यः शाण्डिल्यः अध्यायं त्रि खण्डं फिफ्टीन् अन्तरिक्षोधरकोशो भूमि बुध्नो न जिर्यदिशो ह्यस्य शक्रयोद्यौरस्योत्तरं विलगुं स येष कोशो वसुधानस्तस्मिन्विश्वमिदगुं श्रुतम् तस्य प्राजीदिजुहूर्नाम दक्षिणा राज्ञी नामप्रदीशी सुभूदा नमोदीजिदा सा वायुर्वत्सययेदमेवं वायुदिशां वत्सं वेदन पुत्र रोदगुं रोदिति शोकमेदमेवं वायुन्दिशां वत्सं वेदमा पुत्र रोदगुं रुदम् अरिष्टं कोशं प्रपद्ये मुना मुना मुना प्राणं प्रपद्ये मुना मुना मुना भूः प्रपद्ये मुना मुना मुना भुवः प्रपद्ये मुना मुना मुना स्वः प्रपद्ये मुना मुना मुना स यदवोचं प्राणं प्रपद्य इति प्राणो वा इदगुं यदि भूत यदिदङ्किञ्चतमेव तत्प्रापत्सि अध यदवोचम भूः प्रपद्य इति पृथिवीं प्रपद्येऽन्तरिक्षं प्रपद्ये दिवं प्रपद्य इत्येवतदवोचम् अथ यदवो जम्भुवः प्रपद्य इत्यग्निं प्रपद्ये वायुं प्रपद्य आदित्यं प्रपद्य इत्येव तदवोचम् अध यदवो जगं स्वप्रपद्य इत्य ऋग्वेदं प्रपद्ये यजुर्वेदं प्रपद्ये सामवेदं प्रपद्य इत्येव तदवोजन् तदवोचम् अध्यायं त्रि खण्डं सिक्स्टीन् पुरुषो भावयज्ञस्तस्य यानि च दुर्विगं सति वर्षाणि तत्रादशवनं च गायत्री गायत्रं प्रादस्सवनन्तदस्य वसवोऽन्वायत्ताः प्राणावा वसव ये दे हीदगुं सर्वं वासयन्ति तञ्चेदे तस्मिन् वयसि किञ्चिदुपतपेत् स प्राणावसव इदं मे प्रादः सवनं माध्यन्दिनगुंसवनमनुसन्तनुतेदिमाहम् प्राणानां वसुनामध्ये मध्ये यज्ञो विलोप्सी एत्युद्धैव तदयेत्य गदोहभवति अध यानि चतुश्चत्वारिगुंषद्वर्षाणि तन्माध्यन्दिनघुं सवनं चतुश्चत्वारिगुं सदक्षरात्रिष्णुत्रैष्टुभं माध्युंसवनं ददस्य रुद्रा अन्वायत्ताः प्राणावावरुद्रा ये देहि दघुं सर्वगुं रोदयन्ति तञ्चेदे तस्मिन् वयसि किञ्चिदुप तपेत् सब्रूयात्प्राणारुद्रा इदं मे माध्यन्दिनगुंशवनृदीय शवनमनुसन्दनुतेदिमाहं प्राणानागुं रुद्राणां मध्ये यज्ञो विलोप्सि एत्युद्धैव तदयेत्यगदोह भवति अध यान्यष्टाचत्वारिगुं षद्वर्षाणि तत्तृतीयशवनमष्टाचत्वारिगुं शदक्षराजगदीजागदन्तृदीयशवनन्तदस्यादित्या अन्वायत्ताः प्राणावादित्या ये देहीदगुं सर्वमादददे तञ्जेदे तस्मिन्वयसि किञ्चिदुपतपेत् सब्रूयात् प्राणा आदित्या इदं मे तृतीयसवनमायुरनुसन्तनुते दिमाहं प्राणानामादित्यानां मध्ये यज्ञो विलोप्सि तद तदयेत्यगदोहैव भवति येदस्मवैतद्विद्वानाकमहिदासयेदरे यस्य किं येदुपतपसि योहमनेन न प्रेष्यामीति सः षोडशं वर्षशतमजीवत्प्रः षोडशं वर्षशतं जीवति यं वेद अध्यायं त्रि खण्डम् 17. स यदशि शिषदि यत्पिपासदि यन्नरमदेदा अस्य दीक्षाः अद यदस्नादि यत्पिबदि यद्रमदे तदुपसदैरेदि अधयत्तपोदानमार्जवमहिगुंसा सत्यवचनमिति दा अस्य दक्षिणाः तस्मादाहुः शोष्यत्यसोष्ठेदि पुनरुत्पादनमेवास्य तद्धैतद्धोर आङ्गिरसकृष्णाय देवगीपुत्रा योक्त्वे वाचा पिपास केवस बभूव सोऽन्दवेलायामेत्तत्रयं ताक्षिद ताक्षिदमस्यच्युदमसि प्राणसगुंसिदमसीदि तत्रैते द्वे ऋचौ भवतः आदिप्रत्नस्य रेतसः उद्वयन्तमसस्परिज्योतिः पश्यन्द उत्तरं स्वः पश्यन्द उत्तरं देवन् देवत्रा सूर्यमगन्मज्ज्योतिरुत्तममिज्योतिरुत्तममिधि दि। अध्यायं त्रिखण्डम् 18. मनो ब्रह्मेत्युपासीदेत्यध्यात्ममधाधिदैवतमाकाशो ब्रह्मेत्युभयमादिष्टं भवत्यधात्मञ्चाधिदैवतं तदेतच्चतुष्पाद्ब्रह्मवाक्पादः प्राणाःपादश्चक्षुःपादश्रोत्रम् पाद इत्यध्यात्ममममममममममममधाधिदैवमग्निःपादो वायुःपाद आदित्यः पादो, पादो दिशःपाद इत्युभयमेवादिष्टं भवत्यध्यात्मञ्चैवाधिदैवतं च वागेव ब्रह्मणश्चतुर्धःपादः सोऽग्निनाज्योदिशाभाधिश्च तपति च भाति च तपति च कीर्त्या यस्य सा ब्रह्मवर्चसेन यं वेद प्राण एव ब्रह्मणश्च दुर्धः पादः स वायुना ज्योतिषा भाति च तपति च भाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेनय एवं वेदा चक्षुरेव ब्रह्मणश्च दुर्धः पादस्स आदित्येन ज्योतिषा भाधि च तपति च भाधि च तपदि च भाधि च तपदि कीर्त्या यशसा ब्रह्मवर्चसेनय एवं वेदय एवं वेद अध्यायं त्रि घण्डं नैन्टीन् आदित्यो ब्रह्मेत्यादेशस्तस्योपव्याख्या नमस देवेदमग्र आसीत् तत् स दासीत्तत्समभवत्तदाण्डन्निरवर्तत दा, तत्संवत्सरस्य मात्रामशयद दा, तन्निरभिद्यतते आण्डकपाले रचदञ्च सुवर्णञ्चाभवताम् तद्यद्रजतगुंसेयं पृथिवी यत्सुवर्णगम् साद्यौर्यजुरायुधे पर्वदा यदुल्भगुं समेखो निहारो या धमनयस्ता नद्यो यद्वास्ते यमुदगगुं स समुद्रः अथ यत्तदजायदशोऽसवादित्यस्थञ्जायमानघोषा उलूला उलूलवोऽनूदधिष्ठन् सर्वाणि जभूतानि सर्वे च कामास्तस्मात्तस्योदयं प्रति प्रत्यायनं प्रदि घोषा उलूलवो नोत्तिष्ठन्ति सर्वाणि जभूतानि सर्वे चैव कामाः सययेदमेवं विद्वानादित्यं ब्रह्मेत्युपास्तेभ्याशो यदे यदेनगुं साधवो होषा आजगच्छेयुरूपच निम्रेडेरन्निम्रेडेरन् यदिच्छान्दोग्योपनिषदे तृतीयोऽध्यायः हो